ॐ श्री परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भगवते महापुराणे सप्तमस्कन्धे चतुर्थोऽध्याय व्यासवाच गते राजनिषाबाला पतिसेवापरायणा प्रभुव चेतसाग्निराम् सेवन्ने धर्म तत्पराय फलाज्ञादाय साधूनि मूलानि विविधानि च दोषा मुनये पति वार पतिसेवायपरायण पतिं तप्तोदकेनाशु स्नापयित्वा मृगत्वचाय परिवेत्य शुभायान्तु भ्रूश्यां स्थापयितव्यं स्थापितवत्यपि शिलान्य वै कुशलनगरे परिकल्प्य कमण्डलम् तमुवाच नित्यकर्म तमुत्थाप्य करे कृत्वा समाप्ते नित्यकर्मणि ग्रूस्याम्बा संस्थरे बाला भर्तारं संनिवेशयत पश्चादानि पक्वानि फलानि च नृपात्मया भोजयामास चव निवारा सुसंस्कृतम् भोक्तवन्तं पतिं तृप्तम् दत्त्वा च मनमाधराय पश्चाच्च पूगं पात्राणि ददौ चादरसंयुताय गृहीत मुखवासन्तं संवेश च शुभासने गृहीत्वाज्ञां शरीरस्य चकारसाधनम् ततः पलाहारं स्वयं कृत्वा पुनर्गत्वा च सन्निधौ प्रवाच प्रणयोपेता किं अज्ञापयसे प्रभौ पादसंवाहनम् तेद्य करोमि यदि मन्यसे एवं सेवापरा नित्यम् बभूव प्रति तत्पर सायं होमावसाने स्वा फलाभ्याहृत्य सुन्दरे अर्पया मास मुदये स्वादूनि च मृदूनि च ततश्च चाण्डे भुवजे प्रेमयुक्ता तदान्यया सुपश्चात्तरं कृत्वा शायया मास तं मुदा सुप्ते पादसंवानं तदा चकारीणां कृशोदरी पादसंवा संवाहनं कृत्वा निशिभक्ति परायण निद्रितं च मुनिं ज्ञात्वा सुष्वाप चरणान्तिके शुचो प्रतिष्ठितं वीक्ष्य लवृन्तेन भामिभिः कुर्वाणाशीतलं वायुम् सिषेभे स्वपतिं ददा हेमन्ते काष्ठसंभारम् कृत्वाग्नि ज्वलनं पुरः स्नापयित्वा तथा पृच्छत् सुखं तेऽस्तीति च मुहूर्ते चोत्थाय जलम् पात्रं च मृत्तिकाम् समर्पयित्वा शौचाथम् मुत्थाप्य पतिं प्रयाय स्थानात् दूरे च संस्थाप्य दूरं गत्वा स्थिरभवत् कुत शौचिं पतिं ज्ञात्वा गत्वा जग्राहतं पुनः आनी आश्रममव्याग्रा चोपवेश्यासने शुभे निज्जलाभ्यां च प्रक्षाल्य पादो हश्च यथाविधिमनपात्रं तु दन्तधावनमाहरत समर्प्य दन्तकाष्ठम् च यथोक्तम् नृपणम् दिने सकारोष्णम् जलम् शोद्धम् समादेतम् सुपावनम् स्नानार्थम् जलमाहृत्य स्वप्रच्छणयान्विता किं वा ज्ञापयते ब्रह्मन् कृतम् वे दन्तधावनम् कुरु स्थानं समन्द्रकम् वर्तते होमकालोऽयं सन्ध्यापूर्वा प्रवर्तते विधिवत् हवनं कृत्वा देवता पूजनम् कुरु एवं कन्या पतिं लब्ध्वा तपस्विनम् अनिन्दिताय नित्यं पर्यचर प्रीत्या तपसा नियमेन च अग्नीनाम् शुश्रूषाम् कुर्वती सदा आराधयामा समुदावनम् सा शुभा न कस्मिंश्चिदश काले तु रविराजो रविराज वैश्विनौ भौ चवनस्याश्रमाभ्यासे क्रीडमानौ समागतो जले स्मृत्वा तु निवृत्ताम् स्वाश्रमं प्रति गच्छन्तीं चारु सर्वाङ्गीम् रविपुत्रोपश्यताम् तं दृष्ट्वा देवकन्याभाम् गत्वा शान्तिकमादरात् ऊचतु समर्पे द्रोत्य न सत्यावति मोहितौ क्षणन्तिष्ठेवरारोहे प्रष्टुम् त्वां गजगामि आवां देवसुतो प्राप्तौ त्यं शुचि स्मिते पुत्री कस्य पति कस्य कथम् उद्यानमागता एकाकी नितरागेऽस्मिन् स्नानार्थं च लोचने द्वितीया श्री वा भासि कमललोचने का इच्छामस्तु वयं ज्ञातुं तत्त्वमाख्यायि शोभने मलो चरणकान्ते भूमौ अनावृतो हृदये कुरु पीडां चलन्तो चलोचने विमानार्हासि तन्वङ्गी कथं पभ्यामृज्शद अनावृतात्र विपरे किमर्थं गमनं तवे दाति च मयुक्ता कथं दय त्वं निर्गताय राजपुत्र्योपसरा वासी स्वदसत्यम्बरानरे धन्या माता यतो दाता धन्य त्वं नैव शक्तो च भक्तुर्भाग्यं तवानघे देवलोकाधिक भूमि इयं चैव सुलोचने प्रचलञ्चरणस्तेद्य सम्पावयति भूतलम् स्वभाग्या च मृगकामम् ये त्वां पश्यन्ति वै वने केचान्ये पक्षिणः सर्वे भूरिहं चाति पावना तुलं तव चास्य सत्यं ब्रूहि सुलोचने पिता कस्ते पदे क्वासो द्रष्टुम् इच्छासि दादरम् तासो वाच श्रुत्वा राजकन्या सुंद तवाच तपाक्राता देवपुत्री नृपात्म शर्रा तन या भार् मुन चलन सेत्ता दुच्छया पते हुती वापस तस्य सेवां महोरात्रम् करोमि प्रीतिमानस कौयुवां किं विहायातौ पतिष्ठति आश्रमे तत्रागत्य प्रकोर्तम् आश्रमम् चाद्य पावनम् तदा कर्ण्यवचोदस्रौ ऊचतुस्तान्राधिपे कथं तम् अपि कल्याणी पित्रा दत्ता तपस्विने राजसे वधो देशे विद्युत्सौदामिनि यथा न देवेष्वपि तुल्या हि तव दृष्टास्ति दुष्ट, भामि तं दिव्याम्बरयोगासि शोभने शोभसेनाजिनिर्वृताय सर्वाभरेण संयुक्ताय नीलालकवरूथिणि दुष्कलितम् विचेष्टितम् यदत्र रम्भूर्वने विशिरसि विशलनेत्रेन्धमिमं पतिं प्रिये मुनिं समासाधरातुरं वृशं वृथा वृतस्तेन भृशं न शोभसे द्रवं वय प्राप्य सुमृत्य पण्डिते मनुभवे नाशुचरा सुसन्धिताः पतन्ति कस्मिन् दृशितवे त्वमन्दार्या न वनान्विता कृतासि धात्रा नुद्धिन न शैनं रहस्यसितायथ क्षणे पतिं त्वमन्यं कुरु चारुलोचने रोधैव ते जीवितमम्बुजे पतिं च सम्प्राप्य मुनिं वने निवासं च तथा जिनाम्बर योग्यतरं न मन्मृहे अतुन्वद्याङ्गुभयोसमेकं वरं कुरुष्वा वैता सुलोचने किं यौवनं मा निशङ्करोषि वृथा मुनिं किं सेव से भाग्य विवर्जितं तं समुज्झितं पोषणरक्षणाभ्यां चैत्वा मुनिं सर्वसुखापवर्जितम् भजानवद्याङ्गु भयोतमेकम् त्वं नन्दने च कुरुष्व कान्ते प्रसितं विहारम् अन्धेन वृद्धेन कथं हि कालम् विनेशसे माननिमानहीनम् भोपात्मजातं शुभलक्षणा च जनसि संसारविहार भावं भाग्येन हीना विजनेव नेत्र कालं कथं वाहसे वृथा च तस्मात् भजस्वैकभाषणे तस्मात् भजस्तपि काचनि चारु वक्रे सुखाय विशालनेत्रे देवालये सुकृचो हरिभुं च भोगन् त्यक्त्वा मुनिं जलमाशु रूपेन्द्रपुत्री किञ्चित् सुखं चात्र वने सुखेशी रुधेन विजने मृगाक्षि देवा तथान्धस्य नवं वयश्च किं ते मतं भूपतिपुत्रि लुःखम् शशिमुखि त्वमतीव सुकोमर फलजलाहरणं तव लोचितम् इति श्रीमद्देवी भागवते मा पुराणे चादृश्यां संहितायां सप्तमस्कन्धे अश्विनी कुमारयोः सुकन्ध्यां पतिबोधवचनं नाम चतुर्थ्याय श्रीजगदम्बिकायार्पणमस्तु